गर्गसंहितखण्डम् टन् अश्वमेधखण्डम् अध्यायम् अध्यायं 38 गर्ग उवाच तदा मृत्युञ्जय क्रुद्धो भैरवम् वीक्ष्य निद्रितम् वृषभम् प्रेरयामास कार्ष्णिजं शूरमानिनं तदैव वृषभकोपादृङ्गाभ्यां मारयन्यदून् दन्तैः पश्चिमपादाभ्याम् सेनायाम् विचचारः त्वरम् जखान शृङ्गेण सम्मुखस्तम् सुनन्दनम् शृङ्गेण भिन्नहृदयपपादपञ्चदाङ्गदः तदा जगाम संक्रुद्धो निरुद्धो गज संस्थितः धनुर्धरोदंशितश्च दा मा दृष्ट्वा तत्र वीरं कृष्णपुत्रम् सुनन्दनम् प्राप्तो दुःखम् रुधेऽत्यन्तम् कम्पिदः शोकपूरितः हदे तस्मिन् महावीरे शोचन्तम् तम् शिवोऽब्रवीद मा कृथास्त्वम् रणे शोकमनिरुद्धमहाबल रणमध्ये पादनम् च शूराणाम् कीर्तये स्मृतम् तस्मात् त्वमपि सङ्ग्रामे मया युध्यस्व यत्नदः प्रयातान् रक्षस्व प्राणान् ममाग्रे युद्धकाङ्क्षया गर्ग उवाच इति तस्य वच श्रुत्वा त्यक्त्वा यदूत्तमः निजखान पञ्चबाणान् शिवस्य मत्तके नृप नारा चास्ते महेशस्य जडजूडेषु निष्ठिताः धृंस्यदे गृध्र पक्षाढ्याः शाखा इव वनस्पतेः तदोरुद्रस्व कोदण्डे बाणमेकं निधाय चिच्छेद तेन सहसा तस्य चापस्य शिञ्जिनीम् अनिरुद्ध पुनः शीघ्रं सज्जं कृत्वा धनुर्दृढम् उग्रचापस्य चिच्छेद शिञ्जिनीं सायकेन च तदश्रुत्वा तयोर्युद्धम् अद्भुतं रोमहर्षणम् विमानस्ताश्च शक्राद्या आजग्मु कौतुकान्विताः ऊजु परस्परं कस्ता निरीक्ष्य भयविह्वलाः देवा ऊजुः अमुल्लोकत्रयस्याभि ह्युत्पत्तिलयकारकौ यतयोश्चरणं तस्माद्विफलम् रणमण्डले को विदेष्यति सङ्ग्रामम् प्राप्स्य देख गर्ग उवाच तदस्त्रिदिनपर्यन्तम् युद्धमासीत् तयोर्भृश्यम् पुनशरासनम् रुद्रसजम् कृत्वा रुषान्विदः ब्रह्मास्त्रम् सन्दधे तत्र लोकप्रलयकारकम् ब्रह्मास्त्रेण दुर्ब्रह्मास्त्रम् भिदुरास्त्रेण पार्वतम् पर्जन्यास्त्रेण चाज्ञेयमनिरुद्धो जहारः तदा प्रकुपितोऽत्यन्तम् पिनाकी प्रज्वलन्निव त्रिशिखेन त्रिशूलेन जखान कार्ष्णिनन्दनम् स त्रिशूलश्च तम् भित्त्वा गजम् भित्त्वा विनिर्गतः स्थितो भूचतयोर्मध्ये ऊर्ध्वपुङ्ख अधोमुखः गजो मृत्युम् गतो युद्धे निरुद्धो मूर्च्छिधो भवद पेततु स्तौ च संलग्नौ भिन्नवक्षस्थलौ मृधे आहाकारस्तदैवासीत् रुधु रु सर्वदाय सर्वयादवाः रुद्रस्याग्रे यथा भेदा यमस्याग्रे च पापिनः अनिरुद्धम् निपतितम् मृत्युतुल्यम् विमूर्छितम् श्रुत्वा मूर्छितम् यदु वीरम् तु वीक्ष्यक्रोधपरिप्लुतः अश्रुपूर्णमुख साम्ब शर्वम् प्राह धनुर्धरः कस्मात् करिष्यस्य रुद्रदानवानाम् हि पालनम् अत्वानिरुद्धम् सङ्ग्रामे चैव सुनन्दनम् वेदे भगवते शास्त्रे पुरा विप्रै श्रुतं मया श्रीकृष्णाख्यम्बरम् नित्यम् शिवम् सेविदि वैष्णवः मृष्राजातं हि तत्सर्वं कार्ष्णीजे पदिदे सदि सुनन्दनकृष्णसुदस्सोभि युद्धे त्वयागदः वृथा करिष्यसे युद्धं धिक्त्वा तस्मान्महेश्वर अहं त्वं पादयिष्यामि रणे कृष्णपराङ्मुखं क्षुरप्रैसायकै तिष्ठतिष्ठ रणे शिव यदध्वजसमाकर्ण्यप्रसन्नशङ्करो ब्रवीद शिव उवाच धन्यत्वं यादवश्रेष्ठसत्यम् वदति नो भवान् मन्नाथकृष्णचन्द्रोऽयम् देवदानवन्दिदः कुनन्दने च निगदे बल्वले मूर्च्छिदेरणे सहायार्थमहं वीरभक्तरक्षार्थमागतः सत्यं कर्तुं स्वपचनं किञ्चित् कोपेन करोमि प्रथने युद्धं भक्तप्रियचिकीर्षया युद्धं वदति भूदेश्ये शाम्भो रोषप्रपूरितः तताडचीक्रं चापेन क्षुरप्रैसायकैर्मृडं तैर्बाणैर्निखतो रुद्रोन्न किञ्चित् कश्मलं गदः यथा मदङ्गजपुष्पैर्जग्राह स्वधनुशिवः तदाढनिशितैर्बाणैर्युद्धे जाम्बवदी सुतन् साम्ब शिवं शिवः साम्बं जग्नतु स्थौ परस्परम् दृष्ट्वा युद्धं तयोर्लोकसंहारम् मे निरे स्मराः भूतले गगने राजन् महान् कोलाहलो भवद भीताश्च वृष्णयस्तत्र नाथम् कृष्णं स्मरन्तिहि तदा हरिः श्रीयद्धुपालकश्च ज्ञात्वा यदूनां च महाविपत्तिम् रथेन तत्रागतवान् रिभुग्नो युक्तेन वै श्यामकिरीडी श्यामकिरीडीनवकञ्जनेत्रो नवार्ककोटिद्युदिमादधानः कौमोदगी शङ्करधाङ्गपद्म कोदण्डवाणैर्नियुतोसिधारी श्रीवचिह्नेन तु कौस्तुभेन पीताम्बरेणी पीताम्बरणे बिजमालयाढ्याः नीलालकैकुण्डलकङ्कणध्याैर्विभूषिदकोडिमनोजतुल्यः समुद्गलद्भिसिदफेन श्रीकरा समुद्गलद्भित्सिदफेन शीकरान्मुक्ताफलानि वजराजहंसकैः सुग्रीवमुख्यैरधिवेगवत्तरायैर्योद्ध सुन्दरसामगायनैः दृष्ट्वा स्वनाथम् यधवस्वागतम् हर्षविह्वलाः बभूवुत्सुखिन सर्वे शीतभीदारविम् यथा तथा प्रचक्रिरे पुष्पवर्षं गगनस्ताश्च देवदाः दृष्ट्वा साम्बस्तु श्रीकृष्णम् सहायार्थं समागतम् पपादपादयोस्तस्य चाबं त्यक्त्वा प्रकर्षतः यदि श्रीगर्गसंहितायाम् हयमेधण्डे श्रीकृष्णागमनम् नामाष्टात्रिंशोऽध्यायः ओ अध्यायम् तर्टि नैन् गर्ग उवाच कृष्णम् दृष्ट्वा भीर्दशङ्किधमानसः त्यक्त्वा चापत्रिशूलादीन् भक्त्या श्रीनाथमब्रवीद शङ्कर उवाच ॐ अविनयमपनयविष्णो दमयमनशमयविषय मृगतृष्णाम् भू ददयाम् विस्तारय तारय संसारसागरदः दिव्यधूनिमकरन्दे परिमलपरिभोगसच्चिदानन्दे श्रीपदि पदारविन्दे भवभयखेदच्चिदेवन्दे सत्यभिभेदापगमेनाथदवाहं न मामगीनस्त्वं सामुद्रोहितरङ्गक्वचनसमुद्रो न तारङ्गः उद्धृतनग नगभिधनुज धनुजकुलामित्रमित्र शशि दृष्टे दृष्टे भवति प्रभवदि न भवति किं भवति रस्कारः मत्स्यादिभिरवतारैरवतारवदावदा वसुधां परमेश्वरपरिपाल्यो भवदा भवदा बभीदोऽहं दामोदरगुणमन्दिर सुन्दर वदनारविन्द गोविन्द भवजलधि मदनमन्दर परमं दरमपनयतुं त्वं मे नारायण करुणामयचरणं करवाणि तावकौ चरणौ इति षट्पदी मदीये वदनसरोजे सदा वस्तु इति स्तु प्रीतः सङ्घर्षणानुजः पप्रच्च सर्वाभिप्रायम् न मन्दम् चन्द्रशेखरम् श्रीकृष्ण उवाच किम् कृतस्ते पराधो वै मत्पुत्रेण कुबुद्धिना यदस्त्वयाहतः सङ्ख्ये निरुद्धो मूर्छितकृदः हदम् यदुबलम् कस्मात कस्मात् कस्मात् त्वम् कस्माद्युद्धम् च कृतवांस्तन्मे व्याख्यातुमर्हसि युद्धम् श्रीकृष्णवचनम् निशम्य प्रमथेश्वरः उवाच लज्जितो भूत्वा विचार्य मधुसूदनम् शङ्कर उवाच देवदेव जगन्नाथराधिकेश जगन्मय पाहि पाहि कृपा कार्यन्निस्त्रपम् माम् कृदागस्सम् त्वं न जानासि किं देव कथयिष्यामि किम् त्वहं भक्तस्य पालनम् कर्तुम् मायया तव मोहितः अहमागतवान् देव त्वम् सर्वम् क्षन्तुमर्हसि शास्ताकम् सर्वलोकस्य मानादिधिमया हरे मारितासङ्गरे सुरा वृष्णय तस्मात् सन्तस्वयम् त्यक्त्वा परमैश्वर्यमीप्सिदन् ध्यायन्ते सततम् कृष्णपादाब्जम् ते निरापदन् सुखम् दुःखम् दृणान् तावद् यावत् कृष्णेन मानसम् कृष्णे मनसि सञ्जाते भेति खड्गो धुरत्ययः नराणाम् कर्मवृक्षाणाम् मूलच्छेदम् करोति यः मद्भक्तिबलदर्पिष्टा मत्प्रभुम् त्वां यदुत्तमम् न मन्यन्ते च ते सर्वे यास्यं दिनिरयं ध्रुवम् इत्युक्त्वा शङ्करस्तूष्णीम् भूत्वा कृष्णस्य पादयोः पपाददण्डवद्भक्त्या ह्यश्रुपूर्णाकुलेक्षणः उद्दाप्याश्वास्य तम् रुद्रम् पार्श्व तत्तत्प्रदर्शनाद मिलित्वा भगवान् कृष्ण आलुलोकसुधार्द्रदृक् आह कृष्णसुरा सर्वे कुर्वन्ति भक्तपालनं त्वया जुगुप्सितं कर्म किं कृतं भक्तपालने ममासि हृदये त्वं तु भवतो हृदये ह्यकम् आहयोरन्तरं नास्ति मूढा पश्यन्ति दुर्धियः त्वां नमन्ति च शिव येन मन्यन्ति मद्वाक्यम् यास्यन्ति नरकम् स देव भगवान् कृष्णो कथम् पुत्रं सुनन्दनम् दृष्ट्या पीयूषवर्षिण्या जीवयामास संयुगे तत्पश्चादनिरुद्धस्य हृदया चूलमेव च शनैः शनैः समाकृष्य जीवयामास तम् हरिः तत्पश्चाद् यादवान् सर्वान् निहतान् संयुगे भृश्यम् अजीवयत्सुधा दृष्ट्या कृष्णस्तु प्रभुरीश्वरः तावत्सदुन्दुभिरवम् पुष्पवृष्टिदिवौकसः उत्साहलक्षणम् चक्रुक् प्रसाद्य गरुडध्वजम् प्रभुम् त्रैलोक्य नेतारम् कृष्णं दृष्ट्वा यदुत्तमः उद्धाय सम्भ्रमचक्रुर्जय रावम् मुदान्विदाः अधोद्धितो बल्वलस्तु महादेवेन रक्षितः क्व गतस्थानिरुद्धो वै ब्रुवन्वाक्यम् रुषान्विदाः तदसर्वेण दैत्यस्तु बोधितो वचनैषु बैः ज्ञात्वा कृष्णस्य माहात्म्यम् मुदिदो भून्महामनाः तदप्रणम्य गोविंदं स्तुत्वा दैत्यस्तु बल्वलः तुरगं बहु द्रव्येण संयुधन् ततो यज्ञ हयं नीत्वा पुत्रपौत्रसमन्वितः सेदुमार्गेण कृष्णस्तु प्रयय्यौ पश्चिमां दिश्यं कृष्णे गते भगवति राज्ये संस्थाप्य बल्वलन् कैलासंप्रय यौरुद्रसगणस्तु सभैरवः यदत्कृष्णचरितं तु ये शृण्वन्ति गृहे जनाः तेषां सहायं भगवान करिष्यति सदा हरिः इति श्रीगर्गसंहितायाम् अयमेदखण्डे निरुद्ध विजयवर्णनं नाम मैकोनचत्वारिंशोऽध्यायः ओ अध्यायम् फोट्टि गर्ग उवाच मुक्तस्तुरङ्गकृष्णेन पत्रचामरभूषिदः प्रययौ स बहुन्देशान्यत्राभ्याम् च विलोकयन् बल्वलम् निर्जितम् श्रुत्वा नानादेशाधिपा नृपाः अयम् न जगृहु प्राप्तं श्रीकृष्णस्य भयान् नृप इद्धम् व्रजन् भारदेवै यदुवीरतुरङ्गमः एकमास्य न राजेन्द्रप्राप्तोऽभूत् व्रजमण्डले तद कृष्णाम् समुत्तीर्य दृष्ट्वा वृन्दावनम् वनम् कमालस्य तले राजन् स्थितो भूद्धयसत्तमः गुर्वाञ्चरन्तम् दुर्तुरगम् विलोक्य विहायगास्ते किल गोपबालाः समा ययुस्ते नृपकौदुकेन अयस्य पार्श्वे करताडनैश्च इति पश्यत्सु सर्वेषु श्रीधाम गोपनायकः जग्राहलीलया राजञ्चरन्तम् चञ्चलम् हयम् गोपास्य न हयम्ब्वागले गोपैः समन्वितः केनो सृष्ट्वो वदन्वाक्यम् नन्दस्य निकटं ययौ आगदम् वाजिनं दृष्ट्वा नन्दोऽपि हर्षपूरिदः तत्पत्रम् वाजयित्वा सर्वान् गद्गदया गिर उग्रसेन हयश्चैष पुरे मम समागतः पालिदोह्यनिरुद्धेन मत्पौत्रेण सर्वतः गृह्णामि यज्ञरगम् मित्राणां मिलनाय च ततः पप्रपौत्रम् पश्यामि कृष्णाकारम् प्रियङ्करम् इत्युक्त्वा नन्दराजस्तु गोपैः समन्वितः कथयित्वा यशोदाग्रेऽभिप्रायम् निर्ययौ तदैव यादवः सर्वे भोज वृष्ण्यन्धकादयः हयस्य पृष्ठदो लग्नस्तत्रा जग्मुर्नृपेश्वर विलोकयन्दो नयपालतीर्थे तथा च मार्गे चैवकि कान्यकुब्जम् सङ्कर्षणम् गोकुलमेव राजन् मार्तण्डकन्यां मधुरां पुरीं च विराजते यत्र दु केशवश्च वृन्दावने नन्दपुरे नृपेन्द्र समागता कृष्णयुधाश्च सर्वे नन्दग्रामं तत्र दृष्ट्वा रथस्थो नन्दनन्दनः सर्वेषामग्रतो भूत्वा ह्याययौ यादवैर्वृतः ददर्श तत्र हरिः संस्थितं तु पुरस्कृत्य वारणेन्द्रमलङ्कृतं पादित्रैः शङ्खशब्दैश्च जयशब्दैर्मृगेश्वर पुष्पालंकार कलश लाजाद्यै परिभूषितं ततश्च यादव सर्वे नेमुर्नन्दं निरीक्ष्य ज हर्षाश्रुविप्लुतराजन्नुद्धवाद्याश्च तत्र वै तत्तैवनन्दराजस्य दक्षिणाङ्गमधा स्फुरद उवाच दृष्ट्वा मनसि ह्युत्तमं शकुन नेत्राभ्यां कृष्णं किं प्रियवादिनं यस्मान्ममाक्षि स्फुरदि दक्षिणश्च प्रियङ्करः मन्येत्रगोचरकृष्णो यदा भूया तदा ह्यहम् लक्षम् प्रसाद्य प्रस्तास्यामि ब्राह्मणेभ्यो ह्यलङ्कृतम् इत्युक्त्वा वचनम् नन्दो विरराम यदा नृपा तदा शृणोत्स्व पुत्रस्यागमनम् व्रजवासिभिः श्रीकृष्णागमनम् श्रुत्वा नन्दो विरहविप्लवः पश्यन् हरिम् च सर्वेषाम् विचार रुदन्निव वदन् कृष्णेदि गिरा गद्गदया दृश्यम् ए कृष्णचन्द्र क्व गतो दुःखितम् माम् न पश्यसि ततो निरीक्ष्य पितरम् श्रीकृष्णपितृवत्सलः अपप्लुत्यरथापादचरणौ पिदुः समुद्धाप्यचिरागतं स्नापयामास सलिढै कृत्वा वक्षसि नेत्रयोः अक्षिभ्यां कृष्णचन्द्रस्तु मुमोच्चाश्रु कृणातुरः श्रीदामादीन् सखीन् दृष्ट्वा पश्चात्प्रेम परिप्लुदः पृथक् पृथक् परिरेभे कृष्णप्रेम भक्तानां कोऽस्तिमाखात्म्यमहो वक्तुं तरातले नन्दाद्यारुरुदुर्गोपा श्रीकृष्णाद्याश्च यादवाः प्रवक्तुं न सम समर्थास्ते सर्वे विरहविक्लवाः अश्रुपूर्णमुखकृष्णगोपान् गद्गदया गिरा परिपूर्णतमम् साक्षात् कृष्णं जगदीश्वरं तादृश्यं ददृश्य सर्वे यादृश्यो मधुरां गतः नवीन नीरदस्यामं किशोरवयसं शिष्युं शरत्प्रभातकमला कान्तिमोचनलोचनम् शरत्पूर्णेन्दुशोभाण्ड्यं शोभा स्वाच्छादनाननं कोडिमन्मथलावण्यं लीलानन्दितसुन्दरं सस्मिदं मुरलीहस्तं द्विभुजं ह्यदिसुन्दरं तडिद्वस्त्रधरं देवं मत्स्यकुण्डलिनं हरिं चन्दनोक्षिदसर्वाङ्गं कौस्तुभेन विराजितम् नुमालधीमाला वनमाला विभूषितम् मयूरपि चूडम् च सद्रत्नमुकुडोज्ज्वलम् पक्वबिम्बाधरोष्टम् च नासिकोन्नदशोभनम् ना एवम् कृष्णस्य राजेन्द्ररूपम् नैत्रायैर्व्रजौ कसः पपुरानन्दसम्मग्न पीयूषमानव इव अनिरुद्धम् ततो नन्दस् साम्बादींश्चैव यादवन् आशीष नन्दः साम्बादींश्चैव यादवान् आशिषम् प्रतदौराजन् प्रीतप्रेम परिप्लुदः तद सर्वैश्च यदुपि पुत्रपौत्रसमन्वितः विवेश स्वगुरम् नन्दो गतदुःखो महामतिः अवप्लुत्यरत कृष्ण साम्बाध्यै त्वरं स्वमादुर्भवनमानन्दं प्रददन् ययौ दृष्ट्वा स्वमातरं कृष्णो गृहद्वारे समागतं रुदधिम्बाष्पखण्डीतां ननामप्ररुदन् हरिः जननी स्वप्राणेभ्य सुदम् उपघूष्य ददौ तस्मै गिरागद्गदया शिषः नन्दस्तधोपनन्दश्च तदा षड्वृषभा तद् षड्वृषभानवः वृषभानुवरश्चैव कियदे द्रष्टुम् समायेयुः तत्रागतानाम् गोपानाम् श्रीकृष्णो यादवैर्वृदः यथा विध्युपसङ्गम्य सर्वेषां मानमाददे ते कृष्णस्य कुशलम् पप्रोर्मुदिदाननाः तेषाम् कृष्णस्तु भगवान् पप्रच्च कुशलम् परम् ततश्च यमुनातीरे वृन्तारण्येन्द्रवेश्वर बभूवु शिबिरा सर्वे निरुद्धस्य महात्मनः शिबिरेष्वनिरुद्धाद्या साम्पाद्याश्चोद्धवादयः निवासम् चक्रिरे कृष्णस्थितो नन्दपत्तने आगतेभ्यश्च सर्वेभ्यो नन्दकृष्णेन संयुधः भोजनम् व्रतदौराजन्पशुभ्यश्च तृणानि च यदि श्रीगर्गसंहितायां हयमेदखण्डे व्रजप्रवेशो नाम चत्वारिंशोऽध्यायः ओ अध्यायम् फार्टिवन् श्रीगर्ग उवाच आहूतो राधया कृष्णसन्ध्यायाम् नन्दनन्दनः जगाम शश्वदेकान् कदलीवनं कदलीवनम् रम्भादलैश्चन्दनस्य पङ्कयुक्तम् मनोहरम् स्वारास्फुरन्नभगेहम् स्वारास्फुरन्नभ्रगेहम् यमुना वायुशीकरम् एतादृशम् राधिकाया सुन्दरम् एकमन्दिरम् सर्वं दुःखाग्निना नित्यं भस्मीभूतं बभूवः नृप नृपदुःखेन वृषभानुजा तनुं रक्षति तत्रापि कृष्णागमनहेतवे निशम्यकृष्णं स्ववने समागतं सखी मुखाच्छ्री वृषभानुनन्दिनी आनेदुमुद्धाय वरासनत्वरं द्वारे सखीभिर्नृप सा जगामः ददौ ह्यासनपाद्याद्यानुप चारान् व्रजेश्वरी वदन्ति कुशलं वाक्यं कृष्णाकृष्णं व्रजेश्वरं परिपूर्णतमं दृष्ट्वा परिपूर्णतमा नृप जघौ विरहजम् दुःखं संयोगे हर्षपूरिता चकार स्वस्या शृङ्गारं वस्त्रालङ्कारचन्दनैः कुशस्तल्याङ्गदे ना शृङ्गारो कृतस्तया पुरातया भुक्तं च ताम्बूलम् कृतं न शय्याशयनं क्वचिद् दास्यं न वा कृतं सिंहासने स्थितं राधा देवं मदनमोहनम् अर्षाश्रूणि प्रमु अर्षाश्रूणि क्षणं युगसमं नाद जानामि त्वद्वियोगदः कडिमन्वन्तरसमं द्विपरार्थसमं दिनं कस्मिन् कुपाले विरहो मे बभूवज दुःखदः येन त्वच्चरणौ पश्यामि सुखप्रदौ यथा रामं तु सीदेवमानसं वरटे धा रासेश्वरं त्वां तु मानदं हि समुत्सहे सर्वं जानाति सर्वज्ञ किं दुःखं कथयाम्यहं शतवर्षं गतं नादवियोगो न गतो मम युत्युक्त्वा वचनं राजन् स्वामिनि स्वामिनं परं वियोगभिन्ना दुःखानि स्मरन्ति सारुरोदः दृष्ट्वा प्रियां रुदन्तीं तां प्रियप्राह वजाहा तस्माश्च शमयन्वाक्यै कृष्णकश्मलमेव च श्रीकृष्ण उवाच न कर्तव्यत्वया राजे शोकश्च तनुशो शकः त्यजश्चैकम् द्विदाभूद भावयोः ऋषयो विदुः यत्राहम् त्वम् सदा तत्र यत्र त्वम् ह्यहमेव च वियोग आवयोर्नास्ति मायापुरुषयोर्यथा भेदम् किञ्चावयोर्मध्ये ये पश्यन्ति नराधमाः देखान्ति नरकान् राधे ते प्रयान्ति स्वदोषदः अथा तस्त्वं तु माम् राधे नित्यं द्रक्ष्यसि चान्तिके भादे चक्रवागीव चक्रवाकम् किञ्चित्कालेन दयिते गोपगोपीभिरेव च साकम् त्वयाक्षरम् गर्ग उवाच माधवस्य वच श्रुत्वा गोपीभिः सहराधिका प्रसन्ना पूजयामास रमेशम् च रमा यथा श्रीराधया पुनः कृष्णो प्रार्थितो नृग प्रसन्नो वृन्दकारण्ये रासं कर्तुम् मनो दधे इति श्रीगर्गसंहितायां हयमेदखण्डे राधाकृष्णमेलनं नामकचत्वारिंशोऽध्यायः ओम् अध्यायं फोर्टि 42 श्रीगर्ग उवाच हेमन्दे मासि पूर्वस्मिन् ्राकायां राधिकेश्वरः वंशीं वशकरीं दग्मौ यथा वृन्दावने पुरा ध्वनिर्बभूव तस्याश्च सर्वेषा माहरन्मनः निशम्य गोप्यः सङ्घिन्ना कामखेदेन तत्र सुः रुन्धन् नम्बुभृतश्चमत्कृतिपरं कुर्वन्मुहुस्त्वम्बरम् सनन्तन ध्यानाद्धन्तनयन् सनन्दन मुखान्विस्मेरयन्वेधसम् औत्सुक्याद्बलिभिर्बलिं चडुलयन् भोगेन्द्रमाकुर्नयन् भिन्दन्नण्डकटाक्षभित्तिमभिदो बभ्रामवंशीध्वनिः अधोदगाच्चन्द्रमास्तु चर्षणीनाम् चर्षणीनांशुचो मृजन् यदा प्रिया प्रियाया राजेन्द्र विदेशादागतप्रियः तदैव यमुना राजंस्तनुं दिव्यं दधारः वृन्दावनं गिरिं द्रश्च व्रजभूमिं च मानद कृष्णानदीजयदि यत्र मणीन्द्रमुक्ता माणिक्यशुभ्रहरिदा करतोलिकाभिः वैदूर्यनीलकहरिधरि वज्रपीदशोपानमण्डपयुताभिरधिस्फुरन्ती स्वच्छन्तस्सूत्पदिदमस्य गणैर्वहन्ती स्यामलेन वपुषाकगणं हरन्ती उत्तुङ्गलोललहरीकमलैर्लसन्ती कृष्णानदीजयदि कृष्णगृहे लुढन्ती गोवर्धनं भज गिरीं शतचन्द्रयुक्तम् मन्दारचन्दनलतावृतकल्पवृक्षम् श्रीरासमण्डलयुदं मणि मण्डपाढ्यं कोडीरमञ्जुलनिकुञ्जकुडीरकोडिं वृन्दवनं चयमुनातडनीरधीरसम्पृक्तमन्दगमनैरधिगन्धवादैः तत्कम्पितं च सुरभीकृतसर्वदेशं श्रीखण्डकुङ्कुममृदा गुरुचर्चिदं तम् जुष्टं वसन्दनवपल्लवपुष्परङ्गैर्मारचन्दन सुचम्पक नीप निम्पैः आम्राधकाम्रपन सा गुरुनागरङ्गैः श्रीतालपिप्पलवडैर्नव नारिकेलैः खर्जुरश्रीबल लवङ्गविराजमान मञ्जीरशालकतमालकदम्बयुक्तम् सन्तान हुन्ददरी कदलीसिदाढ्यं श्रीशाल्मली बहुलकेतकि सच्चिरीशं सन्मोदिनीजलज वृन्दमनोहराभं वृन्दारकं वरवनं तुलसीलताढ्यां श्रीमल्लिकामृदलतां मधु माधवीभिः सम्जितं स्मरनृपेन्द्रव्रजस्य मध्ये वंशीवडं च कलकण्डविषङ्गमैश्च कृष्णातडे च पुलिनं किल बालुकाढ्यां श्रीपाडलैर्मधुक किंशुक सत्प्रियालैरौदुम्भरै क्रमुकद्राक्षकपिद्धयुक्तम् श्रीकोविदारु मन्दलतार्जुनैश्च प्लक्षैरशोकसरलै सुरदारुभिश्च जम्बूसुवेत्रनलकुब्जक स्वर्णयूधि पुन्नागनागगुडजै पुरभैर्वृदं च चक्राह्सारसशुकैसितराजहंसैः कारण्डवैश्चजलकुक्कुटपूजितम् च दात्यूहकोकिलकपोतकनीलखण्डायर्नृत्यन्मयूरकलरावृदं का स्मरत्वम् श्यामाचकोरकलकञ्चनसारिकाभिः पारावदर्भ्रमरतित्तिरि भ्रमरतित्तिरदित्तिरीभिः श्रीकाञ्चनी मधुलता मधुयूधिकाभिः संवेष्टितम् हरिणमर्कडमर्कडीभिः श्रीपद्मरागशिखरं च निकुञ्जगेखम् श्रीकौस्तुभेन्द्रमणिराजिविराजमानं कोडीन्दुमण्डलविधानगणैश्च हैमैः श्रीपट्टसूत्ररजितैर्मणितोरणाढ्यम् मुक्तावृधैः कनकपीदपदत्पदाकैः परावदयिषिदपद त्रिभिरावृतम् च मन्दाकुन्दकरवीरक यूधिकानाम् मालाविचित्ररजिदं नव चम्बकानां नागेशपद्महरिचन्दनपल्लवानां श्रीमालधीकुरबकाञ्चन मालाभिरावृतमनङ्ग हरम् गृहम् तत् सद्रत्नदर्पणवृद्धंसिधचामरैश्च सिंहासनैश्च नवपल्लवपुष्पयुक्तैः शय्यासनैकनकविद्रुमपादवृन्दैः श्रीचन्दनागुरुजलैर्मकरन्दसङ्घैः कस्तूरिकामुदित कुङ्कुमचर्चितम् तद् यजद्वसन्ततरुपल्लवमेव वादैः श्रीदैर्घजेन्द्रगमनै सुरभीकृदाङ्गम् सुरभीकृताङ्गम् ये दादृशम् हरिनिगुञ्जगृहम् स्मरत्वम् सन्नम्रशाखतरुयुक्तमदीवपुष्पैः श्रीवेणुगीतम् बहुकामवर्धनम् निशम्य सर्वा व्रजयोषितो नृप श्रीकृष्णकान्तेन गृहीतमानसा विसृज्य कर्माणि समाययुर्वने शुद्धाया पदीभिराजन् कृष्णेन कृतमानसाः स्थूलम् शरीरम् तास्त्यक्वा त्वरम् कृष्णान्तिकं ययुः सिंहासनेः मधुकूलसंयुदे मध्यस्थितम् सुन्दरनन्दनन्दनम् श्रीसुन्दरिराधिकया समम् परम् गले दधानम् मधुमालधी स्रजम् श्यामम् प्रभातार्क किरीडिनम् हरिम् स्फुरत्प्रभं श्रीमुरलीमनोहरम् पीदाम्बरम् मन्मदराशिमोहनम् व्रजस्त्रिहस्तम् ददृश्युः समागताः दृष्ट्वा प्रिया प्रियदमं मत्स्य कुण्डलिनं हरिं गोप्यो मूर्च्छां गदा सद्यो भूप सां त्वयामा सदा कृष्णोमिष्टवाक्यै सुधासमैः तदा गोप्यो वनोद्देश्ये सर्वाश्चैतन्यतां गदाः कृष्णं गद्गदया वाचा स्तुत्वाभीदा वराः त्यक्त्वा विरहजम् दुःखम् गोविन्दम् ददृश्युप्रियम् वृन्दावने भ्राजमाने मालदीवनसङ्गुले दिव्यद्रुमलताजाले मधुपध्वनिनादिदे विचचारहरिसाक्षाद्देवो मदनमोहनः पद्माभम् पद्महस्तेन गृहीत्वा राधिकाकरम् प्रहसन् भगवान् साक्षादाय यौ यमुनातडम् कृष्णातीरे निकुञ्जे वै श्रीकृष्णो निशसादः तस्मिन् गृहे मधुपदेशृणुगोपिकानां श्रीकृष्णचन्द्रचरणस्मरणावृतानाम् चङ्गारनूपुरचनत्करकङ्कणानां मञ्जीररत्नविचलिकिङ्गिणीनाम् स्मेरद्युतिस्फुटचमत्कृतगण्डदेशैः श्रीदण्डपङ्क्तिविलः सत्तडितालिलेशैः कोडीरहारहरिदाङ्गदभूषितानां बालार्कमण्डलविकुण्डलमण्डितानां तासां तु कापि युवती कथिता का च मुग्धा मध्यापि कापि तरुणी रुचिरा प्रगल्भा काचित तरु विन यदी मधुरम हसंदी काचिखी मदयुदुवने व्रजंदी संताढ़ता काप्य धृह्य का विभुवने कमलर्जखान का काचिच कनक का मु जिमुक बरीद विखत्ता श्रीजाह्नवी जयमुना मधुमाधवी च शीलारमा शशिमुखी विरजा सुशीला चन्द्रानना च त्वचला विशाखा मयाल्प एव कथिता भवने त्वसङ्ख्याः लीलादपत्रमदिमौक्लिकदामजालम् नीत्वा चलन्दिमणिभूमिषु तत्र काश्चित् श्रीचामरव्यजनदण्डधरा वयस्याः काश्चिद्व्रजन्ति धृतपीद पदपदाकाः नृत्यन्ति तत्र हरिवेषरास्तु काश्चिद्वीणाकरा मधुरतालमृदङ्गहस्ताः वंशीधराश्च वृषभानुसुधा सुवेशाः केयूरकुण्डलयुधमणिवेत्रहस्ताः साव भावरसतालयुधस्मिताकृदाैर्शङ्कार नूपुरयुधैर्विशदैकटाक्षैः सङ्गीतनृत्यविदिदैर्भुकुडी विभङ्गै राधां हरिं च सततं परितोषयन्त्यः तस्मिन् निकुञ्च भवने यमुना तडे पि वंशिवडेवनधरा निकडे हरिन्दं श्रीराधयाजगिरिराजतडं व्रजन्तं नन्दात्मजं च नडवेषधरं स्मरत्वं श्रीपद्मरागनखदीप्तिपदारविन्दं चङ्गारनूपुरधरं स्फुरगङ्गदेशम् कुर्वन्दमेव तु पदारुणभूमिदेश्यं श्रीमत्परागसुरुचालमिदस्तदस्तु लक्ष्मीकराब्ज परिपालित लक्ष्मीकराब्ज परिलालितजानुदेश्यम् रम्भोरुपिदवसनं तु कृश्योदराभं रोमा काञ्चीधरं भृगुपदं मणिकौस्तुभाढ्यं श्रीवत्सकाररुचिरं नवमेघनीलं पीताम्बरं करिकरस्फुडबाहुदण्डं रत्नाङ्गदं च मणि कङ्कणपद्महस्तं श्रीराजहंसवरकन्धरशोभमानं श्री कम्बुकण्डलिदम्बिलसत्कपोलं मध्यं चलिदरत्नगिरीडकोडिम् मार्तण्डमण्डलविकुण्डमण्डिताभं वंशीधरन् त्वलोलगुडालपाढ्यं राधापदिं सजल पद्ममुखं चलं तं कन्दर्पकोडिघनमानहरं कृशाङ्गम् वंशीवडे नडवरं भज सर्वदा त्वम् आरक्तरक्तनखचन्द्रपदाब्जशोभां मञ्जीरनुपुररणकडि किङ्गिणीकाम् श्रीखण्डिकाकनकङ्कणशब्दमुक्तां राधां ददामि तरुपुञ्जनिकुञ्जमध्ये नीलाम्बरैकनकरश्मितडस्फुरद्भिः श्रीभानुजातडमरुद्गदि चञ्चलाङ्गैः सूक्ष्मस्वरूपललितैरधिगौरवर्णां रासेश्वरीं भज मनोहरमन्दहासां बालार्कमण्डलमाहाङ्गधरत्नहारां ताडङ्गतोरणमणिं रमनोहराभां श्रीकण्डभाल सुमनो नवपञ्चदाम्नीं रत्नाङ्गुलीयललितां व्रजराजपत्नीं चूडामणिद्विदिलसद्भुरदर्धचन्द्रां ग्रैवयकालपनपत्रविचित्ररूपां श्रीपट्टसूत्रमणि पट्टचलद्विमानं श्रीपट्टसूत्रमणि पट्टचलद्विधाम्नीं स्फूर्ज जसहस्रदलपद्मधराम्भजस्व श्रीबाहुकङ्कणलः सत्कुचरत्नदीप्तिं श्रीनासिकाभरणभूषितगण्डदेशां सद्यौवनालस्सगदिम् कलःसर्पवेणीम् मध्यन्दुकोडिवदनां स्फुटचम्बपाभां सद्भावसहितां नवपद्मनेत्राम् स्मितद्युतिकलां प्रचलत्कडाक्षां कृष्णप्रियां ललितकुन्दलकुञ्जलाभां मन्दार मधुरभ्रमब्री रवाढ्याम् मन्दारकार मधुरभ्रमरी रवाढ्यां श्रीखण्डकुङ्कुममृदा गुरुवारिधिकृदाम् श्रीबिन्दुकीरुचिरपत्रविचित्रचित्रा सन्तानपत्ररुचिरामलमञ्जनाभाम् रासेश्वरीम् गजगदिम् भजपत्मिनीं ताम् यदादृशीम् हृदि वरां तु समेत्य कृष्णो गच्छन्निकुञ्च वनजालविलोकनाय दा वन्दितत्र मणिचत्रधराश्च गोप्यो नीत्वा तदा चमरचारुपदत्पदाकाः षड्राम मेव षड्रागमेव वरधैवदमध्यमाध्यायैर्कायन्तमादिपुरुषम् भजनन्दपुत्रम् षत्रिंशतस्तदनुवर्तितरागिणीनाम् वंशीवरेण ललितेन वरम् व्रजन्तम् शृङ्गारवीर करुणाद्भुत हास्य रौद्र भीम्भत्स भी शान्तकभयानक नित्ययुक्तम् भक्तप्रियम् व्रजवधूमुखपद्मभृङ्गम् योगीन्द्रहृत्कमलविस्फुरदङ्घ्रियुग्मम् क्षेत्रज्ञमादिपुरुषम् स्वधीयज्ञरूपम् सर्वेश्वरम् सकलकारणकारणेश्यम् कृष्णं हरिं प्रकृतिपूरुषयोपुमांसं सर्वं निरस्तकपटं निचतेजशेखयं वैस्तुवन्ति शिवधर्मसुरेश शेषलोकेश सिद्धिद गणेश सुराधयोऽपि राधारमप्रकृतिभू विरजा स्वराध्य वेद भजन्ति सततं तमहं भजामि यदि श्रीगर्गसंहितायां हयमेधखण्डे रासक्रीडायां द्विचत्वारिंशोऽध्यायः ओ अध्यायं फोर्टि त्रि गर्ग उवाच वृन्दावने संकुले मन्दानिले वीजदिशीदले नृपा रन्ध्राणि वेणु किल हरत्ये हरिर्मुहुर्हरत्येव दिवौकसां मनः वेणुगीतं तदश्रुत्वा श्रीराधा कीर्तिनन्दिनी भुजाभ्यां नन्दसूनुं वैद्यग्राहानङ्गविख्वला गोकुलस्य च कोजीं तां कृष्णो गोकुलचन्द्रमाः दृष्ट्वा कुसुमपर्यङ्गे तया रे श्रीकृष्णस्य विहारेण ब्रह्मानन्देन स्वामिनी मोदं लेभे महात्यन्तं तदा स्वामी वशीकृतः रमणीयम् रासे रामा रामेश्वरं जगृहु सर्वदो राजञ्चदयूताश्च योषितः ताभिस्सार्धं हरि रम्यो रेमे वैरासमण्डले तावद्रूपधरो राज यावत्यो व्रजयोषितः विरहिण्यश्च तः सर्वविरहेण विहारिणः ब्रह्मानन्देन सन्मर्त्या आनन्दम् लेभिरे यथा श्रीकराभ्याम् श्रीकराभ्याम् श्रीश्यश्रीश्यामसुन्दरः दधारहृदये सर्वस्ताभिर्भक्त्या वशीकृतः स्वेदयुक्तान्यान् स्वेदयुक्तान्याननानि तासां प्रीत्या व्रजेश्वरः प्रामृजत्पीदवस्त्रेण किं वदामि तपफलम् विना साङ्ख्येन योगेन तपः सा श्रवणेन च विना तीर्थेन दानेन प्राप्ता कामेन ता तदो ततो गोपीजनः सर्वा मानवत्य परस्परं कुवाक्यं कथयामासु कृष्णं तृप्ता विहारतः अस्मत्यक्त्वा पुरकृष्णो गतश्रीमधुरां पुरीं विलोकितुं रूपिणीश्च सुन्दरी स्त्रीश्च सुन्दरः न दृष्टास्तेन सुन्दर्यो जगामद्वारकां पुनः न दृष्टास्तेन तास्तत्र विवाहम् कृतवान् पुनः रुक्मिणीं भीष्मकसुतां न तां दुरूपिणीम् पुनर्विवाहान् कृतवान् सहस्राणि च षोडश नमत्वरूपिणीस्तश्च शोकम् कुर्वन् पुनः पुनः व्रजमागतवान् सख्य श्रीकृष्णोऽस्मान् विलोकितुं दृष्ट्वा रूपाणि च अस्माकं सर्वद्रष्टारमेश्वरः प्रसन्नो भूतदा सख्यो यथा हरिपुरा तस्माद्वयम् च सर्वासाम् सुन्दरीणाम् वरा स्मृताः सुनेत्राश्चन्द्रवदना शश्वस्तु स्थिरयौवनाः अस्मतुल्याश्च रूपिण्यो नैव देवाङ्गनाश्च खे याभिशीघ्रम् कराक्षैश्च कृष्णकामीवशीकृतः अहो वैयेन कंसेन मुखता प्रभक्षिताः स एवान्यत् दुःखदः न सन्धिक्तसर्वत्र सन्धिमानसरोवरे तथा वरस्त्रियो भूमौ न सन्धि सन्धि चात्र हि गर्ग उवाच यदि मानवदीनां च स्वात्मा रामो जगत्पदिः भज शृण्वन् राधया च तथैवान्तरधीयता निर्धनोऽपि धनं लब्ध्वा मानं प्रकुरुते नृपा यस्य नारायण प्राप्तो तस्य किं कथयाम्यास्तम् यदि श्रीगर्गसंहितायाम् हयमेधखण्डे रासक्रीडायाम् त्रिचत्वारिंशोऽध्यायः ओ अध्यायम् फार्टि फोर् अद्भुतम् कृष्णचरितं मया त्वन्मुखदश्रुतम् किं चक्रुर्गोपिकांस्तासां सकथम् दर्शनम् ददौ तत्सर्वमुनिशार्दूलमह्यम् श्रद्धालवे वद धन्यास्ते ये हि शृण्वन्ति सदा मुखेन कृष्णचन्द्रस्य नामानि प्रजपन्ति हि हस्तै श्रीकृष्णसेवां वै नित्यशः नित्यं कुर्वन्ति कृष्णस्य ध्यानं दर्शनमेव जादोदकं प्रसादं च ये प्रभुञ्जन्ति नित्यशः इदीदृशेन भावेन श्रमेण जगदीश्वरं ये भजन्ति मुनिश्रेष्ठ ते प्रयान्ति हरे पदं संसारे ये प्रभुञ्जन्ति भोगान्नाविधान्मुने श्रवणादीन् न कुर्वन्ति देहसौख्येन दुर्मदाः ते चान्देयमदूतैश्च गृहीताश्च भयानकैः पदिता कालसूत्रे वै याव यावद्रविणीक्षाकरौ सुध उवाच इत्युक्तवन्तम् राजानम् प्रत्युवाच मुनीश्वरः गद्गदस्वरया वाण्या प्रशंस्य चरितं हरेखे गर्ग उवाच कृष्णे चान्तर्हिते राज्यं स्वरं सर्वाश्च गोपिकाः आचक्षाणाश्च तं तत्ता हिरण्यो हरिणं यथा अन्तर्हितं हरिं ज्ञात्वा गोप्यसर्वाश्च पूर्ववद यूधिभूता विचिक्योर्वै सर्वतस्तम् वने वने पप्रथ्योर्भूलुहान् सर्वान् मिलित्वा तु परस्परम् अत्वाख्यस्मान् ह्यस्मान् कडाक्ष नक्व नन्दनन्दनः तदस्माकं च वदद योगं सर्वे वनेश्वराः मार्तण्डकन्ये त्वजिरे गोपालो गाश्चरयन् नित्यं चकार लीलां तु स वद श्रु शतशृङ्गगिरीन्द्रस्त्वं श्रीनाथेन हृधपुरा वामहस्तेरक्षणार्थं वास वाद्व्रजवासिनां न जहादिहरिस्त्वान्दुस्वपुत्रं हृदयोद्भवं सगदो वद कुत्रास्ते विहाय विपिनेच नः हे मयूराश्च हरिणा हे गा वो हे मृगा खगा किरीगि कृष्णो, युष्मा किलोकद वदनसो भी कु वने कश्मिन कस्मनोहर ये तैस्त वाक्य सन्तुष्ट कठिनास्तीवासीन उतर ना सर्वे मोहिता किला गर्ग उच ये सर्वा पृच्छन्त कृष्णचन्द्रं वने वने वदन्त्य कृष्णकृष्णे धि बभूवुस्तन्मयास्तदः चक्रुकृष्णचरित्राणि तत्र कृष्णमया स्त्रियः च पदानि ददृशुर्हरेः वज्रद्वशाङ्कुशाध्यैश्च चिह्नितानि महात्मनः तत्पदान्यनुसारेण पश्यन्ध्यप्रययुस्वरम् कृष्णाङ्घ्रिरेण वो नीत्वा मूर्ध्नि धृत्वा व्रजस्त्रियः पदान्यन्यानि ददृश्युश्चान्यचिह्नयुतानि च निरीक्ष्यासु प्रिय सार्धं गत प्रियतमो ह्यसौ एवं वदन्त्य पश्यन्दो गोप्यस्तालवनं गदाः व्रजनग्रे व्रजेन्द्रस्तु व्रजेश्वर्या व्रजे नृभ कोलाहलं च गोपीनां श्रुत्वा प्रत्याह स्वामिनी शीघ्रम् गच्छ प्रियत्वं त्वम् चंद्र समप्रभे आगता व्रजना योगि नेतुम् त्वां मां च सर्वतः तदप्रिया हरे पूर्वम् शृङ्गारं कुसुमयुर्मृभ चकारसुन्दरम् दिव्यम् वृन्दारण्ये च पूर्ववद नन्दसूनुप्रियायाश्च दिव्यम् शृङ्गारमेव जकार बहुविपुष्पैर्भाण्डीरे च यथा पुरा एष प्रसाधनाद्यैश्च स्रक्ताम्भूलानुलपनैः सुन्दरी सुन्दरेणापि बभूवात्यन्तसुन्दरी तद कृष्णस्तुमुदितपुष्पवृक्षधरे नृ शय्याम् पुष्पमयीम् तया रेमे रमेश्वरः गोवर्धने कृष्णाया पुलिने तथा नन्दीश्वरे बृहत्सानौ तदारोहितपर्वदे अरण्येषु द्वादशसु सर्वत्र व्रजमण्डले कान्दया वितरन् कान्दो वंशी वडतले तत्र शुश्रावगोपीनां वदन्तीनां रवं परम् स्वामिन्या सह राजेन्द्र श्रीगोपी जनवल्लभयः पुन प्राहप्रियाम् प्रेम्णा गच्छ गच्छ प्रिये त्वरं कृष्णवाक्यं ततः श्रुत्वा जमानिनी राधो वाजा स प्रचलितुं क्वचित् गेखान्न निर्गता नय मान्दे मनो यत्र दुर्बलाम् दीनवत्सलः इति तद्वाक्यमाकर्ण्य रामाम् रामान्नुजस्ततः स्वेन पीताम्बरेणापि वीजयामास स्वेदः प्रगृह्यपाणिना प्राक् सर्पराज्ञि यथा सुखम् सहरिणा प्रोक्ताम् मत्वात्मानम् वरम् परम् हि त्वा रात्रौ भजते माम् इति मत्वा दु हरये भूत्वा तूष्णीम् व्रजेश्वरी वस्त्रेणाननमाच्छाद्य पृष्ठम् दत्वा स्थिता भवद पुनराह हरिस्तां तु प्रिये गच्छ मया सह भजामि त्वामहम् विहाय गोपि सर्वाश्च लग्नास्त्वाम् तु त्वं तु मे स्कन्धमारुह्य सुखं व्रजरखस्तले इत्युक्त्वा मानि मानि स्कन्धयानामभीप्सतिम् त्यक्त्वा ह्यन्ददर्धे राजन् स्वात्मा रामस्वलीलयाम् अन्तर्हिते भगवति सहसा सा वधूर्नृप अन्वदप्यदुःखार्थागतमानारुरोधः तद तद्रोदनम् श्रुत्वा वंशी वडतडे त्वरम् आजग्मुर्गोऽपि क सर्वे दृशुस्तां च दुःखिताम् चक्रुस्त्री यस्तदङ्गेषु वायुं व्यजनचामरैः स्नापयित्वा तु प्रेम्णा काश्मीरसलिलेन च शिशिचुर्मकरं दायिस्ताम् चन्दनद्रवशीकरैः पुनर्वाक्ये समाश्वास्य गोप्यकर्मसु गोविदाः निशम्य तन्मुखाध्यानं गोविन्दस्य जमानदः मा निन्यो गोपि का सर्वा विस्मयं परमं व्ययुः विहायमानं ताः सर्व आगत्य पुलिनं नृपा स्वरैर्जगु कृष्ण गुरुस्तदागमन हेतवे इति श्रीगर्गसंहितायाम् हयमेधखण्डे रासक्रीडायाम् चतुश्चत्वारिंशोऽध्यायः ओम्